सत्यम् प्रपद्ये ऋतम् प्रपद्ये अमृतम् प्रपद्ये प्रजापदे विजान्तनवमराः काम् प्रपद्ये इदमहम् पञ्चदशेन वज्रेण विगन्तम् भ्रातव्यमवकामामि योः स्मान्द्वेष्टे यञ्च वयम् दश्मः भोर्भुवः सुवः हेम् प्रलोवाजाभिद्यवः अविष्पन्तोघृताच्या देवाञ्जिकादिसम्नयोः अग्नायादिवीतये घ्राणो हव्यतातये हव्यतातके सस्यपरिगषे हन्ता समिद्भिरङ्गिरः घृतेन वर्धयामसि गृहक्षोचार्यवृष्ट्या हनःपृथस्रवाय्यम् हादेव विवासति बृहदग्ने सवीर्यम् स्य स्थिरः समीर्ध्यते वृषाः समिध्यते अश्वनदेव वाहनः तरुम् हरिष्मन्तकीरते पृषणन्ता वयम् पृषण् विषाणः समिधेमहे अग्ने मृषदे अग्न्यम् तु वदम् विणेमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् अग्न्यः पावकयेभ्यः श्रोतिष्केशस्तमीमहे समेद्धो अग्न्याहुदास्वध्वरम् आजुहो अग्न्यम् प्रयत्यध्वरेहव्यवाहनम् अग्ने वाहम्बधन्तिष्ठाः वृणनाय सन्तु योऽयम् पादस्वस्ति व्यस्तदानः अग्ने महागुम् असिब्राह्मणभारताः असावसो देवेक्षोमन्विद्धःप्राणपचितः कविशत्वा ब्रह्मजगुंसितोः वनः प्रमेर्यज्ञानाम् आस्तात्रोर्देवानाम् देवनः अरागम्यमहाय अग्निमग्नावः सोमावः अग्निमावह प्रजापतिमावः अग्नेशोमावः इन्द्राग्नेयावः इन्द्रमावह महेन्द्रमावह देवागम् आज्ञागमावः अव्यगम्होत्रायावः स्वं महिमानमावह ः वेदः अज्ञरहो दावेत्वग्निः होत्रम् वे दा। दावे तु प्रावित्रम् स्म वयम् साधुते यजमानदेवताः धृतवदे मध्वर्यस्तु नमास्य स्वा देवायुवम् विश्वमाराम् एडामहे देवायुम् यीडेऽन्यान् नमस्याम नमस्यान् यजामयज्ञयान् ग्स्य वियम् तु रमणपादग्स्य वेतो हिडग्स्य वियन्तोरग्नाद्यस्य वेतो स्वाहाग्न्यम् स्वाहा सोमम् स्वाहाग्न्यम् स्वाहा प्रजापतिम् स्वाहाग्ने सोमो स्वाहेन्द्राग्ने स्वाहेन्द्रम् स्वाहा महेन्द्रम् स्वाहागुम्हायो अग्निंग द्रविणस्विपनया शुक्रहुद विषाणो अग्निराज्य वेद पगुंस्माधिपतिगुंराजवतवर् तम भद्राधि विषाणस्व महाराज हमेद अज्ञप्रत्रेण जन्मना शुम्भानस्तनुभग्रस्वारिविप्रेण वाणो अज्ञराज्यस्य वेदो सोमकेऽर्भिष्पादयम्बिदः नामिष विषाणस्व महाराज्ञस्य हविषो वेदो अग्निम् मोक्षादिवः पथे पृथिव्या अयम् भुवो यज्ञस्य करजश्च यत्र नेभ्यः सजय शिवाभिः दिविमोर्धानन्दजय सुपरिषाम् ऋक्कामज्ञेयगृहव्यवाहम् प्रजापतेनत्वरेतान्यः विश्वा जाता विपरितापभूव ऋक्कामास्त्यजुमस्तम् न अस्तो परेभ्यस्यामपि योगोगीणाम् सवेदपुत्रंसुवः विश्वाभुवाभवत्साभव अग्नेशो मासवेदः स होजीवनतङ्गिरः सन्देहत्राभोवसुः इवमेतानि यमिलोचनानि अग्नित्रतोमधक्रतो अशरतम् इवगम् सिन्धोगम् रवितस्तैरपद्यान् अग्नेशो मावमुञ्जरङ्गभेदान् इन्द्राज्ञे लोचनादिवः परिवाजेषु जयन्ताः येन्द्रदा नयम् श्रेत्तानकम् सदासहम् प्रभोत्रो ज्येष्ठस्तेहराजस्तो इन्द्राभरलक्षयेणसौने पतिथो नामजरेना पर्जन्या वृष्टिमागम् इव सोमैरत्सस्य वीर्यायःपृथः स्वपृथः कर्तृग्भोन् विप्रेः देवागम्पुषगोयविष्ठा विद्वागम् मृदोगम ये देव्या ऋतुभिरग्ने ब्रह्मसुणामस्यायरिष्ठः अज्ञशिष्टकृतम् अयारज्ञरज्ञा प्रियासामाने अयाक्स्वामस्य प्रियासामानि अयाज्ञा प्रयासामानि अया प्रजापदे प्रयाथामानि अयाज्ञे शमया प्रयासामानि अयान्द्राज्ञया प्रयासामानि अयान्द्रस्य प्रयाथामानि अयाम् महेन्द्रस्य प्रियासामानि अया देवानामाज्यपानाः प्रियासामानि यक्षदग्नेतप्रियानि यक्षस्वम् महिमानम् आयजता मे ध्याघिषः कृणोदशो अध्वरा पावकसो जयवेकुम्भेज्वाः कृता इदािनादियद्भोः अव्यावहेव क्षयाते अद्य उपहोदगम् रसन्दरगम् रहदेव्या उपमा रसन्तरगम् रहदेव्या हयताम् उपभोदम् वामदेव्यगम् सहान्तरिक्षेण उपमा वामदेव्यगम् सहान्तरिक्षेण हयताम् उपहोदम् बृहत्सः दिवा उपमा सप्तहो मात्राः क्वयन्ताम् उपहोदाधेनः ऋषभा उपमाधेनः सह ऋषभा क्वयताम्भक्षः सखाः उपमा भक्षः सखाः विलोपहूता उपहूतैराः मानवे धनपदे मेत्रा वरुणे ब्रह्मदेवगतमुपहूतम् देव्याध्वर्यमवपहूताःतामनुष्याः मै यज्ञमवारे हे यज्ञपतिमद्धा उपहूते व्या वापृथिवी ऊर्मदेपुत्रे उपहोतमयञ्जमानः उत्तरस्याम् देवयज्यायामुपभूतः भोजसिहविष्करणमुपभूतः दिव्ये धामन्वहूतः ब्रह्मे देवाविद्युषन्तामितस्म्यन्नुपभूतः विश्वमस्य प्रियमुपभूतम् विश्वस्य प्रियस्यापहूतस्यापहूतः एवम् बलिः अधुपने मृधेयस्य रवेत् एवो न राजगुंसः अधुपने मृधेयस्य रवेत् एवो अग्न्यस्मिन् टगते सुद्रविना मन्द्रः कविः सत्यमन्मायजी होदाोदलहोदलायजीयान् होतुर अग्नेयान् देवाभियान् यागम् अभिप्रेः एते होत्रे अवत्सदागुम् समेषु होत्रान् देवम् गमान् देवेषु यज्ञमेवम् शिष्टगर्चाग्ने होता भोः वसुवने मुधेयश्च नमो वागे इदन्द्या वा पृथिवे भद्रमभू आत्मसोक्तवाकम् उदनवा वाकम् उक्तोक्षमग्ने प्रपुंसोः तवागते उपश्यतोपृथिव्याः ओमन्वदे अस्मिन् यज्ञेऽपि न मा हद्या वा पृथिवेस्ताः शङ्कयजीलानो अक्रस्मो अप्रवेद हविरजुषत अवेव स तमहो अज्यायो कृत सोपजगम् हविरजुषत अवेव स तमहो अज्यायो कृता अज्ञरथगम् हविरजषत अवेव स तमहो अध्यायोकृता रपजरथम् हविरजुषत अवैव स तमहो अध्यायो कृता अग्ने स्वामिदगम् हविरुषेताम् अविवृधेताम् महोज्यायोः क्राताम् इन्द्राग्ने हविरुषेताम् अविवृधेताम् महोज्यायोः क्राताम् इन्द्रगिलम् हविरजुषत अवेव सन्तमहाध्यायोः कृता अग्निलहोत्रे नवेव समहाध्याया कृता कस्याम् सद्भोत्रायाञ्जयङ्गमाया आशास्ते यजमानोऽसौ आयुराशास्ते स्वप्रजास्तमाशाहस्ते प्रजातमनस्यामाशास्ते उत्तराञ्जयज्ञामाशास्ते भोजो हविष्करणमाशास्त्य दिव्यन्धामाशास्त्य विश्वम् प्रियमाशाहस्त्य तदश्च तदर्ध्यान् तस्मै देवाना सन्ताम् देवादेवे ब्रह्मणते अयमग्रे मानुषाः विष्टम् च वेदम् च उभेषा वा पृथिवी अलंहरस्तानाम् एकदर्भावस्येदम् च नभो देवेभ्यः तच्छय्यो नारिणेमहे गातम् यज्ञाय धादम् यज्ञपदे देवे स्वस्थिरस्तु नः स्वस्तिर्मारुषेभ्यः मूर्ध्यम् जिगादृभेषजम् षण्स्तु द्विपदे षञ्चतुष्पदे आप्यायष्पसन्ते इहत्वष्टारमग्नियन्तम् नस्तु देवम् देवानाम् पत्नी विषतीरवन्तुनः वरावन्तुनस्तु च देवायरादये या पात्रिवासो या अपामिभ्रते तानो देवे सुभाः शर्म यच्छता उतज्ञापियन्तदेवपत्नीः इन्द्रान्यज्ञायश्विनीदसेवरुणादिशृणोदो प्रियन्त देवे जयदुर्गदीनाम् अज्ञता गृहपतिः सराजाः विश्वावेदनिवाजाजवेदाः देवानामुदयावृत्यानाम् निर्दिष्टः स प्रयोजतामृता वायमुत्पादृहपते जनानाम् अग्ने अकर्म सविधान्तम् अस्थोरिणोकाविहवत्यासन्तो त्रिक्ष्मेण नस्तेजदासकंसिताभिः उपहोदयम् वसन्तरगम् सह पृथिव्याः उपहो सह पृथिव्याः उपहोदम् वा उपमा वामदेव्यम् सहान्तरिक्षेण ह्वयदाम् बभूदम् बृहत्सः दिवा उपमा बृहत्सः दिवाह्वयदाम् बहुदाः सप्तहोत्राः उपमा सप्तहोत्राः क्वयन्दाम्बहोदाधेनस्तारिडभा उपवाधेनस्ता हरिडभा क्वयदाम् बहोदा भक्षसखा उपमा भक्षसखा क्वयदाम् ो इडोपहूता उपभोगेडा भो अस्माकम् इडाः क्वयताम् इडोपभूता उपभोगेडा मानवे कृतवदेव वरुणे ब्रह्मदेव कृतमुपभूताम् हैर्याध्वर्यवबोताः उपभूता मनुष्याः यज्ञपवान् ये यज्ञपत्नीम् वर्धान् उपहूते पूर्वजेदावरी देवी देवपुत्रे उपहूते न यजमाना इन्द्राणी वा विसवा अतिशरवसुपुत्रा मस्तरस्याम् देवयज्ञाया उपभूता भोगशः विष्करणमुपभूता दिव्येधामन्दुपभूता इदम् मे देवाभिर्ज्यन्ता मेरस्मिन् बभूता विश्वमस्य प्रियमुपभूतम् विश्वस्य प्रियस्य बभूवतस्याबभूता ओ